श्रीहरये नमः अथ पञ्चदशोऽध्यायः श्रीशुक उवाच ऐलस्य च उर्वसी गर्भान् षटासन्नात्मजान्रपान् आयुश्रुतायु सत्यायु रयोतविजयो जयः श्रुतायोर्वसुमान् सत्यायो, रयो श्रुतायो सत्यायोश्च श्रुतञ्जयः रयस्य सुतयेकश्च जयस्य तनयो भीमस्तु विजयः भी स्यात् काञ्चनोऽहोत्रकस्ततः तस्य जज्ञोषुतो गङ्गा घण्टूषीकृत्ययोऽपि भथ जज्ञोसु पूरुस्तत्पुत्रो भलाकश्चात्मजो जगः ततः कुश कुश्यापि कुशाम्बुस्तनयो वसुः गातिरासीत् कुशाम्भुजः तस्य सत्यवतीं कन्यां रुचिको याच तस् मत्वा गातिर्भार्गवमब्रवीत् एकतश्यामकर्णानां ह्यानां चन्द्रवर्चसां सहस्रं दीयतां शुल्कं कन्यायाकुशिका वयं इत्युक्तस्तन्मतं ज्ञात्वा गतक्सवरुणान्तिकम् आनीय दत्वा दानस्वान् उपयेमेव शपयित्वो भयैर्मन्त्रैश्चरुं स्नातुं गतो मुनिः तावत् सत्यविति मात्रा स्वचरुं याचिता सती त्रेष्टं मत्वा तया यच्छन् मात्रे माधुर तत् स्वयं तद्विज्ञाय मुनिः प्राह पत्नीं कष्टम् अकारशीः घोरो दण्डधरः पुत्रो भ्राता ते ब्रह्म प्रसादितः सत्यवत्या मैवम्भूति भार्गवः अत तर्हि भवेत् पौत्रो जमधग्निस्ततो भवत् सा चापूत्सु महापुण्यात् कौशिकी लोकपावनी रेणुसुतां रेणुकां पै तस्यां वै सुता वसुमधादयः यवीयाञ्जज्ञये तेषां रामयित्यभिविश्रुतः यमाहुर्वासुदेवांसं हैहयानां कुलान्तकं त्रिसप्तकृत्वो ययिमां चक्रे निक्षत्रियामहीं दुष्टं क्षत्रम्भुवो भारम् अब्रह्मण्यम् अनीनस रजस्तमोवृतमहन् फल्गुण्यपि कृतें हसे राजोवाच किं तदं हो भगवतो राजन्यैयजितात्मभिः कृतं येन कुलं नष्टं क्षत्रियाणाम भीक्ष्णसहा श्रीसुकौ वाचा हैकयानामधिपतिम् अर्जुनक्षत्रियर्षभः धत्तं नारायणस्यां सम् आराध्यपरिकर्मभिः बाहुन्दसशतं लेबें दुर्दर्शत्वमरादिशो अव्याकदेन्त्रियौझ श्रीतेजोवीर्ययशो भलम् योगेश्वरत्वं नैश्वर्यं गुणायत्राणि मादयः सचाराव्याहत कदेर्लोकेषु पवनो यथा श्रीरत्नैरावृत क्रीडन् रेवाम्बसि मधोत्कटः वैजयन्तीं स्रजं बिभ्रत् रुरोधसरितं बुजैः विप्लावितं स्वशिभिरं प्रतिश्रोतसरिज्झलैः नामृष्यत्तस्य तद्वीर्यं वीरमानिदशाननः गृहीतो लीलया स्त्रीणां सन्निरुद्धो मुक्तो येन कपिर्यथा स ये कदातु चमदग्नेरुपाविशत् तस्मै स नरदेवाय मुनि अर्पणमाहरत् ससैन्यामात्यवाहाय हविष्मत्या तपोधनः स तद्धान्द्रियधाग्निहोद्र्यां सापि लाक्षस्सैहयः हविर्दानीं रुषेर्धर्बान् नरान् हर्तुम् अचोदयन् निन्यो स वत्सां ग्रन्थतीं भलात् अतरा राम आश्रम आगतः श्रुत्वा तत्तस्य दौराज्ञं शुक्रोधाहिरिवाहतः गोरमादाय परशुं सतूर्णं चर्मकार्मुकम् अन्वधावत दुर्दर्श मृगेन्द्र इवयूतपं तमापतन्तं भृगुवर्यं मोजसा धनुर्धरम् बाण परस्वधायुधम् ऐणेयचर्माम्भरमर्गधामभेर्युधं जडाभिर्धदृशे पुरीं विशन् अचोत यत्कस्तिरतास्वभक्तिभिर्गतासि भाणर्ष्टिसदग्निशक्तिभिः अक्षौहिणी सप्तदशादि वीक्षणास्ता राम एको भगवान् असूदयत् यतो यतोऽसौ प्रहरत् परश्व मनो निलौजा परशक्रसूदनः ततस्ततश्चिन्नभुजोरुकन्धर निपेतु उर्व्यां कतसूतवाहनाः दृष्ट्वा स्वं सैन्यं रुधिरौघकर्द मे रणाजिरे रामकुटारसायकैहे कैहे विवृग्नसर्मध्वजापविग्रहम् इपातितं कैहय अधार्जुनः पञ्चशतेषु बाहुबेर्धनुः शुभाणान् युगपत्सन्धते रामाय रामोऽस्त्र प्रधां समग्रणीस्तान्येकधन्वेषु वि आश्चिनत्समम् पुनः अभिधावतो युधि भुजान्कुटारेण कठोरनेमिना चिच्छेद रामप्रसभं त्वहेरिवन् कृतभागोऽशिरस्तस्य गिरे शृङ्गमिवाहरत् हतेपितदि तत्पुत्र अयितं दुद्रुवुर्भयात् अग्निहोत्रीम् उपावर्त्य स वत्सां परवीरः समुपेत्याश्रमं पित्रे परिक्लिष्टां समर्पयत, स्वकर्म कृतं राम पित्रे पाद्रुव्य एव च वर्णयामास तच्छ्रुत्वा जमदग्न्यभाषत राम राम महाबाहो भवान् पापम् अकारषीत् अवन्दी नरदेवं यत् सर्वदेवमयं मृता वयं हि ब्राह्मणस्तात् क्षमयार्हणतां गताः यया लोकगुरुर्देव पारमेष्ट्यम् अघात्पदं क्षमया रोचते लक्ष्मेर्ब्राह्मी शौरे यथा प्रभा क्षमीणामासु भगवान् स्तुष्यते हरिरीश्वरः राज्ञो मूर्ताभिषिक्तस्य वधो ब्रह्मवधाद्गुरुः तीर्थसंसेवयाचां को यज्ञङ्गाश्युतचेतनः इति श्रीमद्भगवते महापुराणे नवमस्कन्ते पञ्चदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराज जय